श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध त्रयोदशोऽध्यायः वस्तुनो यद्य नानात्वम् आत्मनः प्रश्नईदृशः कथं घटेत भो विप्रावक्तुर्वामेक आश्रयः पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः को भवानी तु प्रश्नो वाचारं भोजनर्थकः मनसा वचसादृष्ट्या गृह्यतेऽन्यैरपिन्द्रियैः अहमेवं न मत्तोऽन्यबुद्ध्यध्वमञ्जसां गुणेष्वाविशते चेतो गुणास्येतसि च प्रजाः जीवस्य देह उभयं गुणास्येतो मदात्मनः गुणेषु चाभिषच्चित्तम् अभिक्ष्नं गुणसेवयाम् गुणाश्च चित्रप्रभवा मद्रूप उभयं त्यजे जाग्रस्वप्न सुप्तं च गुणतो बुद्धिवृत्तयः तासां विलक्षणो जीव साक्षित्वेन विनिश्चितः यर्हि संसृतिबन्धोऽयम् आत्मनो गुणवृत्तितः नैतुर्ये सितो जह्यात्यागस्तद्गुणचेतसाम् अहङ्कारकृतं बन्धम् आत्मनोऽर्थविपर्ययम् विद्वान् निर्वेद्यसंसारचिन्तां तुर्ये सितस्य देवम् यावन्नानार्थदि पुंसो निर्ना निवर्तेति युक्तिभिः जागर्त्यपि स्वपन्यज्ञ स्वप्ने जागरणं यथा असत्त्वादात्मनोऽन्येषां भावानां तत्कृताभिरम् गतयो हे तवश्चास्य मृषा स्वप्न दृशो यथा यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणैर्हृदितस्रदीक्षं दृक्षान् स्वप्ने सुप्त उपसंहरते स एक स्मृत्यन्वया त्रिगुणं दृत्ते जगिन्द्रियेश मन्माययामैकता इति निश्चितार्थाः सन्सिद्धदां हार्दमनुमानसदुक्तितीक्ष्ण ज्ञानं ज्ञानाशिना भजतम् अखिलसंशयाधिम् इच्छेत विभ्रममिदं मनसो विलासं दृष्टं विनस्तमतिलोलमलातचक्रं विज्ञानमेकमुर्धेव विभाति माया सप्तस्तिधा गुणविसर्गकृतो विकल्पः दृष्टिं तत प्रतिनिवर्त्यभित्तृष्णतृष्टिं भवे निजसुखानुभवो निरीह सन्दिश्यसे क्वचयदेदमवस्तु बुद्ध्या तृप्तं भ्रमायण भवेत् स्मृतिरा निपातात् देहं दैवादपेतमुतं दैववशादुपेतं वासो यथा परिकृतं मधिरामधान्ध देहोऽपि वैव सग खलु कर्म यावत् स्वारम्भकं प्रति समेक्षत एव चाशो तं स समाधियोग स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तु नैतदुक्तं वो विप्रागुह्यं यः साङ्ख्ययोगयोः जानीतमागतं यज्ञं युष्मद्धर्माविवक्षया अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेज च परायणं द्विजश्रेष्ठा श्रियकीर्तेर्दमस्य च मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् सुहृदं प्रियमात्मानं शाम्याशङ्गादयो गुणा एते ते छिन्नसन्देहामुनियशनकादय सभाजय त्वापरया भक्त्या गृणसंस्तवै तैरहं पूजित सम्यक् संस्कृतपरमर्षिभिः प्रत्ययाय सुखं धाम पश्यत परमेशिनः ते श्रीमद्भागुते महापुराणे पारहिंसां सहितायाम् एकादश त्रयोदशोऽध्यायः